अथैकोनषष्टितमः सर्गः एतदाख्याय तत्सर्वम् हनुमान् मारुतात्मजः भूयः समुपचक्रामवचनम् वक्तुमुत्तरम् सफलो राघवोद्योगः सुग्रीवस्य च सम्भ्रमः शीलमासाद्य सीताया मम मनः आर्यायाः सदृशम् शीलम् सीतायाः प्लवकर्षभाः तपसाधारये तपसाधारयेल्लोकान् क्रुद्धा वा निर्दहेदपि सर्वथातिप्रकृष्टोऽसौ रावणो राक्षसेश्वरः यस्य ताम् स्पृशतो गात्रम् तपसा न विनाशितम् न तदग्निशिखाकुल्यात् संस्पृष्टा पाणिना सति जनकस्य सुताकुल्याद्यत्क्रोधकरुषीकृता जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाकपीन् अस्मिन्नेवम् गते कार्ये भवताम् च निवेदिते न्याय्यम् स्पसः वैदेह्याद् द्रष्टुम् तौ पार्थिवात्मजौ अहमेकोऽपि पर्याप्तः सराक्षसगुणाम् पुरीम् ताम् लङ्काम् तरसा महाबलं। रावणम् च महाबलम् कृतात्मभिः कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः अहम् तु रावणम् युद्धे ससैन्यम् स पुरःसरम् सह पुत्रम् वधिष्यामि सहोदरयुतम् युधि ब्राह्ममस्त्रम् च रौद्रम् च वायव्यम् वारुणम् तथा यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे तान्यहम् निहनिष्यामि विधमिष्यामि राक्षसान् भवतामभ्यनुज्ञातो विक्रमो मेरुणद्धितम् मया तुला विसृष्टा हि शैलवृष्टिर्निरन्तरा देवानपिरणेऽहन्यात् किम् पुनस्तान्निशाचरान् भवताममनुज्ञातो विक्रमो मेरुणद्धि माम् सागरोऽप्यतियाद्वेलाम् मन्दरः प्रचलेदपि न जाम् भवन्तम् समरे सर्वराक्षससङ्घानाम् राक्षसाय च पूर्वजाः अलमेकोऽपि नाशाय वीरो वालिसुतः कपिः प्लवगस्योरुवेगेन नीलस्य च महात्मनः मन्दरोऽप्यवशीर्येत किम् पुनर्युधिराक्षसाः सदेवासुरयक्षेषु अश्विपुत्रौ महावेगावेतौ प्लवकसत्तमौ एतयोः प्रतियोद्धारम् न पश्यामि रणाजिरे मयैव लंका दग्धा भस्मीकृता पुरी राजमार्गेषु सर्वेषु नाम विश्रावितम् मया बलो रामो लक्ष्मणश्च महाबलः राजा जयति सुग्रीवो राघवेणाभिपालितः अहम कोसलराज से दास पवन सवनूद नाम विश्रा मैया अशोकविध्ये रावण से दुरात्म अधस्ता मूले साध्वीकुण्मा स्थिता राक्षसी पवृता शोकसंतापकर्शिता मेघरेखा पता चंद्ररेखे निष्रभा अचिन्तयन्ती वैदेही रावणम् बलदर्पितम् पतिव्रता च शुश्रोणी अवष्टब्धा च जानकी अनुरक्ताहि वैदेही रामे सर्वात्मना शुभा अनन्यचित्ता रामेण पौलोमेव पुरन्दरे तदेकवाससंबीता रजोध्वस्ता तथैव च सा राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदा वने एकवेणीधरादीना भर्तृचिन्तापरायणा अधः शय्या विवर्णाङ्गी पद्मिनीव हिमोदये रावणाद्विनिवृत्तार्थामर्तव्यकृतनिश्चया कथञ्चिन्मृगशावाक्षी विश्वासमुपपादिता ततः सम्भाषिता चैव प्रकाशिता रामसुग्रीवसख्यम् च श्रुत्वा प्रीतिमुपागता नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा यन्नहन्ति दशग्रीवम् निमित्तमात्रम् रामस्तु वधे तस्य भविष्यति सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्षिता प्रतिपत्पाठशीलस्य विद्येव तनुताम् एवमास्ते महाभागा सीता शोकपरायणा यदत्र प्रतिकर्तव्यम् तत्सर्वमुपकल्प्यताम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये सुन्दरकाण्डे एकोनषष्टितमः